श्रीहरये नमः अतदसमोऽध्यायः नारद उवाच भक्तियो गत्य तत्सर्वम् अन्तरायतयार्बकः उवाच प्रह्लाद उवाच आसक्तं आसक्त कामेशुर् तत्सङ्गभीतो निर्विष्णो मुमुक्षु स्त्वामुपाश्रितः भृत्यलक्षणजिज्ञासोर्भक्तं कामेश्व चोदयद् भवान् संसारबीजेशो हृदय ग्रन्थिषु प्रभो नान्यता घटेत करुणात्मनः यस्त आशिषयासास्ते न सभृत्य स वैवर्णिक् आशासनो न वैभृत्य स्वामिन्याशिष आत्मनः न स्वामीभृत्यथक्स्वाम्यमेच्छन् यो राचाशिषः अहं त्वकामहंस्तकामत्वभक्सत्वं च स्वामी अनपाश्रयः नान्यदेहाभयो अर्थो राजसेवकयोरिव यदीरासीसमे कामान् वरांस्त्वं वरधर्षभा आमानाम् हृद्य संरोकं भवधस्तु वृणेवरम् इन्द्रियाणि मनःप्राण आत्मा धर्मो धृतिर्मतिः क्रीश्रीस्तेजस्मृतिः सत्यं यस्य न स्यन्ति जन्मना विमुञ्चदि यथा कामान् मानभो मनसि स्थितान् दर्कये व पुण्ठरीकाक्ष भगवत्वाय कल्पदे नभो भगवते तुभ्यं पुरुषाय महात्मने रयेद्भुतसिंहाय ब्रह्मणि परमात्मने नृसिंह उवाच नैकान्ति नो मे मयि जात्विकाशिष आसा से मुत्रचये भवद्विधाहा तत्र दैत्येश्वराणाम् कथा मदीयाजुषमाणप्रियास्त्वम् आवेश्य मामात्मनि सन्तमेकं सर्वेषु भूतेष्वधियज्ञमीसं यजस्वयोगेन च भोगेन पुण्यं कुशलेन पापम् कलेवरं कालजवेन हि त्वा कीर्तिं विशुद्धां सुरलोकगीतां विधाय मामेष्यसि मोक्तबन्धः ययेतत् कीर्तयेन्मह्यं त्वया गीतमिदं नरः त्वां कर्मबन्धात् प्रमुच्यते प्रह्लाद उवाच वरं वरयये तत्ते वरदेशान्महेश्वर यदनिन्दत्पिता मे त्वाम् अविद्वांस्तेज ऐश्वरं सर्वलोकगुरुं प्रभुम् भ्रातृहेति मृषा दृष्टे स्त्वद्भक्ते मयि चा गवान् तस्मात् पिता भूयेत दुरन्धात् दुस्तराधगाद्भूतस्ते पाङ्गसं दृष्टस्तदा कृपणवत्सला श्रीभगवानुवाच त्रिसप्तभिः पिता भूतः पितृभिः सकतेन साधवः समुदाचारास्ते भूयन्त्यभिकीकटाः सर्वात्मनागहिंसन्ति भूतग्रामेषु किञ्चन उच्छावचेषु दैत्येन्द्रमद्भावेन गतस्पृहाः भवन्ति पुरुषालोके मद्भक्तास्त्वामनुव्रताः भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपा उपदृक् कुरु त्वं प्रेतकार्याणि पितुः पूतस्य सर्वसखा मदङ्गस्पर्शनेनाङ्ग लोकां यास्यति सुप्रजाः पित्र्यं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः मय्या वेश्य कुरु कर्माणि मत्परः नारदौ उवाच प्रह्क्ह्लादोऽपि तथा चक्रे पितुर्यत् साम्परायिकं भगवान् राजन् अभिषिक्तो द्विजोत्तमैः प्रसादसुमुखं दृष्ट्वा ब्रह्मानर हरिं हरिं स्तुत्वा वाग्भिपवित्राभे प्राहदेवादिभिर्वृतः ब्रह्मोवाच देवदेव अखिलाध्यक्षभूतभावनपूर्वजान् दृष्ट्या ते निकतः पापो लोकसन्तापनोऽसुरः योऽसौ लब्धभरो मत्तो न वध्यो मम सृष्टिभिः तपो योग बलोन्नन्दत् समस्तनिहमानहन् द्युष्ट्यास्य तन यः सातुर्मगोवतोर्भगः त्वया विमोचितो मृत्योर्दृष्ट्या त्वां समितोऽधुना एधत्व पुस्ते भगवन् ध्यायतः प्रयधात्मनः सर्वतो गोप्तृसन्त्रासान् मृत्योरपि जिगांसतैः नृसिंह उवाच मैवं परोसुराणां ते प्रधेय पद्मसम्भवा परक्रूरनिसर्गाणाम् अहीनाम् अमृतं यतां नारथ उवाच इत्युक्त्वा भगवान् राजन् तत्रैवान्तर्धते हरिः अदृश्य सर्वभूतानां पूजितः परमेष्टिना ततः सम्पूज्य शिरसा वन्दे परमेष्टिनं भवं प्रजापतीन् देवान् प्रह्लादो भगवत्कलाः ततः दैत्यानां दानवानानां च प्रह्लादमकरोत्पत्तिम् प्रतिनन्द्य ततो देवा प्रयुज्य परमाशिषः स्वधामानि ययो राजन् ब्रह्माद्या प्रतिपूजिताः विष्णो पुत्रत्वं प्रपातितौ धिते हृदि स्थितेन हरिणा वैरभावेन पुनश्च विप्रसापेन राक्षसौ तौ बभूवतुः कुम्भकर्णदसग्रीवौ हतौ तौ रामविक्रमैः स यानौ युधिनिर्भिन्न हृदयौ रामसायकैः तच्चित्तौ जगतोर्देहं यथा प्राक्तन जन्मनि ता विहात पुनर्जातौ शिशुपालकरुंशजौ हरौ वैरानुबन्धेन पश्यतस्ते समीयतु येनः पूर्वकृतं यत्त जानक् कृष्णवैरिणैः जघुस्त्वं ते तदात्मान कीटः पेशस्कृतो भगवतो भक्त्या परमया भितां नृपाश्चैत्यादय साध्यं हरेस्तच्चिदयायुः आख्यातं सर्वमेतत्ते यन्मान् त्वम् परिभृष्टवान् धमगोक्षसुतादीनां हरे सात्म्यमपि द्विषां एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः अवतारकथा पुण्या वधो यत्रादि दैत्ययोः प्रह्लादस्यानुचरितं महाभागवतस्य च भक्तिर्ज्ञानं विरक् यातात्म्यं शास्यवैहरेः सर्गस्थितप्य येशस्य गुणकर्माणुवर्णनं परापरेक्षां स्थानानां कालेन व्यत्ययो महान् धर्मो भागवतानां च भगवान् येन गम्यते आज्ञानेऽस्मिन् समां नाथम् अशेषतः ययेतत् पुण्यमाख्यानाम् विष्णोर्वीर्योपब्रुह्मितम् कीर्तये श्रद्धया श्रुत्वा कर्मपाशैर्विमोच्यते एधत्य आतिपुरुषस्य मृगेन्द्रलीला तैत्येन्द्रयूत भवतम् प्रयतः पठेत् दैत्यात्मजस्य च सतां प्रवरस्य पुण्यं श्रुत्वानुभावम् अकुतो भयमेति लोकं यूयं नृलोकभत भूरिभाग लोगं पुनानामुनयो भियन्ति येषां गृहान् वसतीति साक्षात् गूटं परं ब्रह्म ब्रह्ममनुष्यलिङ्गम् सभा अयं ब्रह्ममखत् विमृग्य कैवल्यनिर्वाणसुखानुभूतिः प्रियः सुहृत्स्व खलु मातुलेय आत्मा न यस्य साक्षाद्भव पद्मजातिभिः रूपं दिया वस्तुतयोपवर्णितं मौनेन भक्त्योपशमेन पूजितः प्रसीदतां एष ससात्वम्पतिः स एष भगवान् राजन्व्यततोत्मिकतं यशः पुरारुद्रस्य देवस्य मयेन अनन्तमायिना राजोवाच कस्मिन् कर्मणि देवस्य मयोहं जगदीसितुः यथा चोपचिता कीर्ते कृष्णेनानेन कथ्यता नारदौ उवाच निर्जिता सुरा देवैर्युद्यनोपबृंहितैः मायिनां परमाचर्यम् अयं शरणमाययुः स निर्माय पुरस्तिस्रोहैमीरौप्याय शीर्विभुः दुर्लक्ष्याभाय संयोगा दुर्वितर्क्य परिश्च दाह ताभिस्ते सुरसेनान्यो लोकान् स्त्रींसेश्वरा नृप स्मरन्तो नाशयाञ्चक्रो पूर्ववैरवलक्षिताः ततस्ते सेश्वरा लोका उपासाद्येश्वरं विभो त्राहिनस्तावकान् देव विनष्टां स्त्रिपुरालयैः अथानुगृह्य भगवान् मा बैष्टेति सुरान् विभुः सुरन्दनुषि सन्दाय पुरेश्वस्त्रं व्यमुत ततोऽग्निवर्णायिषभुद्धेतु सूर्यमण्डलाद्यथामयूकसन्दोहात् न दृश्यन्तपुरो यतः तैः स्पृष्ठाव्यसभत् सर्वे निपेतु स्म नीयमखा योगी मय कुपैरसे क्षिपत् सिद्धामृतरस स्पृष्टा वज्रसारामहौजसख उत्तस्तोर्मेकधलना वैद्युता इव तथाऽयम् भगवान् विष्णुस्तत्रोपायम् अकल्पयत् वत्स आसीत् तथा ब्रह्मा स्वयम् विष्णुरयम् शिगौः प्रविश्य त्रिपुरम् काले रसकोपामृतं पपौ ते शुराह्यभिपश्यन्तो न्यषे धन् विमोहिताः तद्विज्ञायमहायोगे रसपालानिधं जगौ स्वयं विशोकसोकार्तान् स्मरन् दैव गतिञ्च तां देवोऽसुरो नरो न्यो वा नेश्वरोऽस्तीह आत्मानोऽन्यस्य वादिष्टं दैवनाबोहितुं द्वयोः अतासौ शक्तिभिः स्वाभिः शम्भो प्राधनिकं व्यधात् धर्मज्ञानविरक्तिरुद्धितपो विद्याक्रियादिभिः रथं सूतं त्वजं वाहान् धनुर्बर्मशरादियत् सन्नद्धो रथमास्ताय शरं धनुरुपादधे शरं धनुषि सन्धाय दधा गेन दुर्भेद्याहरध त्रिपुरो नृपा दिविधुन्दुपयोने दुर्विमानसदसङ्कुलाः देवर्षि पितृसिद्धेशा जयेति कुसुमोत्करैः अवाकिरञ्जगुरुहृष्टा नन्तृतुस् चाप्सरो गणाः ये बन्धत्वा पुरस्तिस्त्रो भगवान् पुरहा नृपं ब्रह्मादिभिस्तूयमानः स्वधाम प्रत्येवंवितान्यस्य हरे स्वमायया विडम्बमानस्य नृलोकमात्मनः वीर्याणि गीतानि ऋषिभिर्जगद्गुरोर्लोकान् पुनान्यपरं वधामि किम् इति श्रीमद्भागवते महापुराणे सप्तमस्कन्धे दुष्ट्रनारतसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्दा गोविन्द सद्गुरुमहाराज के जय